नारदपुराणम् पूर्वार्धम् अध्यायम् नैण्टिफोर् श्रीब्रह्मोवाच शृणु वत्सप्रवक्ष्यामि पुराणम् वैष्णवम् महद त्रयोविंशतिसहस्रम् सर्वपादकनाशनम् यत्रादिभागे निर्विष्टाः षडंशाशक्तिजेनः मैत्रेया यादिमे आदिकारणसर्गश्च देवादीनां चसंभवः सम्भवः समुद्रमधनाख्यानं दक्षादीनां तदोन्वयः ध्रुवस्य चरितं चैव पृद्धोश्चरितमेव प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम् पृथग्राज्याधिकाराख्या प्रथमोंश इति प्रयव्रतान्वयाख्याख्यानम् द्वीपवर्षनिरूपणम् पातालनरकाख्यानम् सप्तस्वर्गनिरूपणम् सूर्यादिवारकथनम् पृथग्लक्षण संयुतम् चरितम्भरदस्याधमुक्तिमार्गनिदर्शनम् निदाकऋभुसंवादो द्वितीयं च उदाहृतः मन्वन्तरतमाख्यानं वेदव्यासावतारकं नरकोद्धारकं कर्म गदिदं च ततः परं सगरस्यौर्वसंवादे सर्वधर्मनिरूपणं श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनं सदाचारश्च कथितो मायामोहकथा ततः त्रिधियं शोय मुदित सर्वपापप्रणाशनः सूर्यवंशकथपुण्यसोमवंशानुकीर्तनं चतुर्धेंश्ये मुनिश्रेष्ठ नानारा च कथान्विधम् कृष्णावतारसम्प्रश्नो गोकुलीयाय कथा तदः बाज्य कूदनादिवधो कैशोरे कैशोरेकंसहननं माधुरं चरिदम् तथा ततस्तु यौवने प्रोक्ता लीलाद्वारवदी भवा सर्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः यत्र स्थित्वा जगन्नाथकृष्णो योगेश्वरेश्वरः भूभारहरणं चक्रे परेषाम् हननादिभिः अष्टावक्रियमाख्यानम् पञ्चमों च इदीरिदः कलिजम् चरिदम् प्रोक्तम् चादुर्विध्यं लयस्य च ब्रह्मज्ञानसमुद्देश्य काण्डिक्यस्य निरूपितः केषिद्ध्वजन चेत्येष षष्ठोंशः परिकीर्तितः अध परं तु सुदेन शौनकादिभिरादराद कृष्टेन चोदिता शश्वद्विष्णुधर्मोत्तराह्वयाः नानाधर्मकथाः पुण्याव्रतानि नियमा धर्मशास्त्रं चार्थशास्त्रम् वेदान्तं ज्योतिषं तथा वंशाख्यानं प्रकरणास्तोत्राणि मनवस्तथा नानाविद्यास्तथा प्रोक्ता सर्वलोकोपकारिकाः ये तद्विष्णुपुराणं वै सर्वशास्त्रार्थसङ्ग्रहम् व्यासेन कथितन्ति विहा यो नरः पठति भक्त्या य शृणोति च सादरं तावो भवविष्णुलोकं किं व्रजेदां भुक्तभोगौ तल्लिखित्वा च यो दद्या दाशाढ्यां कृदधेनुना सहितं विष्णुभक्ताय पुराणार्थविदेद्विज स यादिवैष्णवं धाम विमाने नार्कवर्तः सा यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज कथये तृणुयाद्वापि स पुराणफलं लभेत इति श्रीबृहत् नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे विष्णुपुराणानु क्रमणी निरूपणं नाम चतु नवतितमोऽध्यायः ओम्